मुद्गलपुराणं खण्डं नयन् योगचरितम् अध्यायं ट्वेण्टिफैव् विकल्पप्रतापखण्डनं श्रीगणेशाय नमः मुद्गल उवाच आदौ गणेश्वरं स्मृत्वा परं सृष्ट्वा विकल्पकं तेजस्विनं महाभागाकथं नेच्छध तं पुनः शरणं मां प्रपन्नानां करिष्यामि प्रियं शिवः स्थी यदां सन्निधानेऽत्र विकल्प किं करिष्यति महर्षह्यः शिवादयः आश्वासितास्थितास्तत्र सुखयुक्ता बभूविरे मुद्गलस्याश्रमे तस्य प्रवेशो नैव विद्यते विकल्पस्य महाभागतेन निःसंशया बभुः विकल्पेन च वृत्तान्तो देवर्षि देवर्षिसम्भवः क्रोधयुक्तस्वयं हन्तु माययौ मुद्गलाश्रमम् आगतं समालोक्य विकल्पं भयदायकं देवेन्द्रमुद्गलं तत्र जगुर्भयसमन्विताः देवेन्द्राऊचुः विकल्पक्रोधसंयुक्त आगतः स महामदे धुना विप्र यत् करिष्यसि तत् कुरु तेषां वचनमाकर्ण्य मुद्गलस्तानाथा ब्रवीद चिन्ताह्मा कुरुदप्राज्ञा हनिष्यामि विकल्पकं यवमुक्त्वा स्वयं योगी मुद्गलस्तमधाययौ विकल्पं तेजसायुक्तं सर्वसंशयकारकम् उवाच त महायोगी मुद्द परमादयायुक्त स्वभा प्रेर गणपे नह मुद्द उवाच किमक्रूहि सांप्रद्र गुचि नो चे भस्म भविष्य मुद्गलस्य वच श्रुत्वा विकल्पक्रोधसंयुतः जगादसमहाविप्रं प्रदहन्निव तेजसा विकल्प उवाच मां दृष्ट्वा विष्णुशम्भुवाद्या वसिष्ठाद्या महर्षयः संशयेन समायुक्ता बभूवुस्तत् क्षणान्मुने त्वां न जानामि योगीन्द्रं स्थितः कुत्रासि वाडव विजेतारं वदसि सर्वेषां मूर्खवध्वजः मया चराचरं सर्वं मदधीनं कृदं किल अधुना त्वां कनिष्यामि परं त्वया देवेन्द्रमुख्याश्च देवा मुनिसमन्विताः विकल्पेन विहीना कृधा हृधा कस्माद्वदस्व गर्वं हन्तुं समायातं त्वदीयं मुद्गलाश्रमं जानीहि त्यज सर्वांस्त्वं नो चेद्भस्म भविष्यसि विकल्पस्य वच श्रुत्वा क्रोधयुक्तो महामुनिः सस्मारगणपञ्चित्ते विकल्पस्य वधायसः तस्य स्मरणमात्रेण चित्तान्मुद्गलयोगिनः अग्निप्रलयकृतत्र निःसृतः अग्निर्ययौ महाक्रूरं विकल्पं क्रोधसंयुतः कलं दर्शनमात्रेण दाहयुक्तं चकारसः तदशन्त्यर्थमत्यन्तं यत्नं चक्रे स शौनकविकल्पश्च ततोऽत्यन्तमग्निस्तेजो युतोऽभवद अधिदाहयुध सोऽपि विकल्पखेदसंयुधः गर्वं त्यक्त्वा महाविप्रमनमन्मुद्गलं पुरः जगादभयभीदस्स रक्ष मां मुनिसत्तम त्यजसादे प्रदग्धं तु शरणागदवत्सल शिवविष्णुमुखाः सर्वे विप्रा वासिष्ठमुख्यकाः जिदामयान सन्देहस्वल्पायासेन योगीप त्वं किं साक्षाद्गणेशान् आकतोऽसि न संशयः त्वां जेतुम्न समर्थोऽहमदस्ते शरणं गदः रक्षरक्षदया सिन्धो दाहयुक्तं विशेषतः त्यजसादे प्रणष्ठं मां कृदमागः क्षमस्व मे विकल्पं व्याकुलं दृष्ट्वा दयायुक्तो बभूवः मुद्गलो गणपाज्यादमग्निं शान्तं चकारः तदसंज्ञासमायुक्तो विकल्पस्तमुवाचः स्वस्था यादौ मुद्गलं योगिनां वरं विकल्प उवाच जिदोहं च त्वया विप्ररक्षितोऽग्नभये तथा अधुनादे समाधीनस्तिष्ठामि त्वत्समीपगः स्थानं देहि महाभाग तत्र स्थास्यामि निश्चलः तवाज्ञावशको भूत्वा तव दासोऽहमञ्च सा तस्य तद्वचनं श्रुत्वा ध्यानयुक्तो बभूवः ज्ञात्वा विघ्नेश्वरस्यैव कृत्यं तं मुद्गल उवाच योगाकारं गणेशानां न जानन्ति नराधमाः देहधारिसमं तं ये मानयन्ति गुणोद्भवं तेषां कृति बहिष्ठित्वा तिष्ठत्वं सर्वदा मुदा नानासंशयसंयुक्तां स्थान् कुर्वन् सविशेषतः मौद्गलं संशयेनैव युक्तं कुरु मदाज्ञया तेषां हृदि समास्थाय योगिनां गणपद्विषां गणेशं योगरूपं ये मानयन्ति विकल्पकयोगिनो योगिनो वापि ते त्याज्याः मौद्गले युक्ता भविष्य सदा मुदा योगिनो नान्ये जानी मम वाक्य मुक्त महायोगी मुद्गलो विररा महा विकुवा प्रणम्य स्वस्थल यय ततो हर्षयुधा देवामुनयस्थं प्रणम्य च मुद्गलं स्वस्थलं जग्मु कर्मयुक्ता जना बभुः तदहान्मौद्गलं विप्र सेव्यतेनैव जन्तुभिः दोषयुक्तयुर्विशेषेण विकल्पेन समन्वितैः कलावत्यन्तभावेन मौद्गलं नष्टकं भवेद् दोषयुक्ता जनास्तत्र भविष्यन्ति गृहे गृहे योगिनो मौद्गलं नित्यं सेवन्दे भावसंयुधः गणेशरूपबोधोये चदुरा सर्वपावनाः नान्ये पाकण्डिनो लुब्धा नानाच्छत्मधरा भुवि मोहयुक्ताविशेषेण भविष्यन्ति दुमौद्गलम् एवं देवैक्रुतो विघ्नो गणेशानेन प्रेरितैः मुनिभिर्मौद्गले तेना भवन् जन्मयुधा नराः यदत्ते कथितं सर्वं रहस्यं परमाद्भुतं शृणुया श्रावयेद्यस्तु विकल्परहितो भवेद ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषद्रीमगले महापुराणे नवमे खंडे योगचरते योगाममृताे दक्षद्दवाकलप्रतापंडन नाम पंचवशोध्याय ओम